अथ सप्तषष्टितमः सर्गः आक्रन्दिता निरानन्दा सास्रकण्ठजनाविला अयोध्यायामवतता साव्यतीयाय शर्वरी यतीतायाम् तु कात्यायनो गौतमश्च जाबालिश्च महायशाः एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् वसिष्ठमेवाभिमुखाः श्रेष्ठम् राजपुरोहितम् अतीता शर्वरी दुःखम् यानो वर्षशतोपमा अस्मिन् पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे स्वर्गस्थश्च महाराजो रामश्चारण्यमाश्रितः लक्ष्मणा तेजस्वी राण सह उतुघ्न केक परंतरेजगृह रम्ये माता मह निवेशवा कूणा हाद कद्राज विधीयता अराजकं हि नो राष्ट्र विनाश समनुयाजक जनपद विद्युन्माली महास्वन अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा नाराजके जनपदे बीजमुष्टिः प्रकीर्यते नाराजके पितुः पुत्रो भार्यावावर्तते वशे अराजके धनम् नास्ति नास्ति भार्याप्यराजके इदमत्याहितम् चान्यत्कुतः सत्यमराजके नाराजके जनपदे कारयन्त्य सभाम् नराः उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च नाराजके जनपदे यज्ञशीलाद्विजातयः सत्राण्यन्वासतेदान्ता ब्राह्मणाः संशितव्रताः नाराजके जनपदे महायज्ञेषु यज्वनः ब्राह्मणा वसु सम्पूर्णा नाराजके जनपदे प्रहृष्टनटनर्तकाः उत्सवा सजाश्च वर्धंते राष्ट्रवर्धना नाराज के जनपद सिद्धाथ व्यवहारिण कथाज्यशीला कथा कथाई नाराज के जनपद्या सगता कुमार हेम भूषिता नाराज के जनपद सुरक्षिता शेरते विवृतद्वारा कृषिगोरक्षजीविनः नाराजके जनपदे वाहनैः शीघ्रवाहिभिः नरा निर्यान्त्यरण्यानि नारीभिः सहकामिनः नाराजके जनपदे बद्धघण्टाविषाणिनः अटन्ति राजमार्गेषु कुञ्जराः षष्टिहायणाः नाराजके श्रूयतेतर निर्घोष इश्वस्त्राणामुपासने नाराजके जनपदे वणिजो दूरगामिनः गच्छन्ति क्षेममध्वानम् बहुपण्यसमाचिताः नाराजके जनपदे चरत्येकचरोवशी भावयन्नात्मनात्मानम् यत्रसायं सायम् गृहो मुनिः नाराजके जनपदे न चाप्यराजके सेनाशत्रून्विषहते युधी नाराजके जनपदे हृष्टैः परमवाजिभिः नराः सञ्ज्ञान्ति सहसा प्रतिमण्डिताः नाराजके जनपदे नराः ना शास्त्रविशारदाः सम्वदन्तोपतिष्ठन्ते वनेषूपवनेषु वा नाराजके जनपदे माल्यमोदकदक्षिणाः देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः नाराजके जनपदे चन्दना गुरुरूषिताः राजपुत्राभिराजन्ते वसन्ते इव शाखिनः यथा ह्यनुदका नद्यो यथा वाप्यतृणम्बनम् अगोपाला गावस्तथा राष्ट्रमराजकम् ध्वजो रथस्य प्रज्ञानम् विभावसोः तेषाम् योनो ध्वजो राजा सदैवत्वमितो गतः नाराजके जनपदे स्वकम् भवति मत्स्या इव जना नित्यम् भक्षयन्ति परस्परम् येहि हि सम्भिन्नमर्यादा नास्ति काश्चिन्नसंशयाः तेपि भावाय कल्पन्ते राजदण्डनिपीडिताः यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः राजा सत्यं च धर्मश्च राजा कुलवताम् कुलम् राजा माता पिता चैव राजा हितकरो हितकरोऽनृणाम् यमो वैश्रवणः शक्रो वरुणश्च महाबलः विशिष्यन्ते नरेन्द्रेण वृत्तेन महता ततः अहो तम इवेदम् राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी जीवत्यपि महाराजे तवैव वचनम् वयम् नातिक्रमामहे सर्वे वेलाम् प्राप्येव सागरः षडः समीक्ष्य द्विजवर्यवृत्तम् नृपम् विना राष्ट्रमरण्यभूतम् कुमारभिक्ष्वात्सुतम् र्यम् त्वमेव राजानमिहाभिषेचय त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तषष्टितमः